गत रविवासरे अस्माभिः निमित्तम् इति विषयः पठ पठितः तत्र अस्माभिः दृष्टं यत् निमित्तस्य त्रीणि प्रकाराणि सन्ति तत्र सप्तमीविभक्तिनिमित्तमस्ति पञ्चमीविभक्तिनिमित्तमस्ति तृतीयाविभक्तिनिमित्तमस्ति यतोहि Uh, uh, कुत्रचित् uh, सप्तमीविभक्ति uh, पदे निमित्तस्य प्रक् uh, निमित, निमित्तं यतो इको पदम, uh, निमित्तं भवति यतोहि इकोयणचि अत्र सप्तमीविभक्तिमध्ये यणचि इति पदमस्ति तत् पदम् अस्ति निमित्तं यण्सन्धेः निमित्तं तदनन्तरं पञ्चमीविभक्ति पञ्चमीविभक्ति अपि निमित्तस्य लक्षणं भवितुं शक्नोति ऋषाभ्या अच्छा निमित्त अस्त रषाभ्या पंचमी विभक्ति अस्त अत पंचमी विभक्तिमित शनोति अन तृतीय विभक्त अभी निम्त्त भवि शक्नो यही स्तोष्टुनाशु अभक्तियाँ निमित्त पदे निमित्त यदि टकार अथवा चवर्गस्य स्पर्शं नास्ति चेत् नास्ति तर्हि सन्धि सन्धिकार्यं न भवितुं शक्नोति अतः अत्र तृतीयविभक्तौ अस्ति निमित्तम् एतत्तु सर्वं सञ्जातं गतरविवासरे प्रश्नाः सन्ति चेत् किं प्रश्नाः सन्ति चेत् पृच्छन्तु अस्ति वा प्रश्नः अस्ति वा कोऽपि महोदय सुमित्रा अस्मि नमस्कारः इदानीमेव आगतवती नमस्कारः महोदय मम नाम श्रीरामः नमस्ते महोदय अहं प्रतिभा अस्मि अहम् अमितः निमित्तम् इति विषये कोऽपि प्रश्नः अस्ति वा नास्ति चेत् अग्रे गच्छामः अस्तु अस्तु अस्तु तर्हि अग्रे गच्छामः तृतीयकरपत्रे इत् संज्ञाप्रकरणम् इति नूतनविषयः अस्ति तर्हि इत् संज्ञाप्रकरणम् एकं बहु महत्वपूर्णविषयः अस्ति नाम मूलभूतविषयः अस्ति फण्डामेण्टल् विषयः अस्ति अष्टाध्यायी पाणि अतः इत् संज्ञाप्रकरणस्य प्रभुत्वं बहु प्रभुत्वम् अति अनिवार्यमस्ति अतः अतः अग्रे पठामः अधुना के के महोदय अस्ति वा लीना दोषी आम् अस्मि अहं <laughs> लीना अस्मि भवती अत्र इत्संज्ञा नाम का इति अस्माभिः ज्ञास्यते व्याकरणे पाणिनिना यदा किञ्चिन् मूलरूपं दियते। धातु। प्रत्ययः आदेशः आगमः तदा तस्य मूलरूपस्य नाम उपदेशः थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णाः उपस्थिताः ये च न तिष्ठन्ति यथाः लटि गच्छति उपदे अस्य धातोः नाम गम्लु लो इति वर्णः लोके न तिष्ठति प्रक्रियायां तस्य लोपः भवति ये वर्णाः उपदेशे सन्ति परन्तु नाम, नाम विशिष्टा तर्हि इमे वर्णाः स्वयम् इत्संज्ञकाः इति उच्यन्ते ः प्रमुखग्रन्थः इदं प्रकरणम् अष्टाध्याय्याम् एभिः च सप्तभिः सूत्रैः सर्वम् इत्संज्ञा विधायककार्यं सिद्ध्यति प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञा प्रकरणम् अस्तु अग्रे गच्छामि किमस्ति कि अर्थ अर्थ वदतु कानि कानि अधिकानि वर्णाः धातोः समीपं सन्ति किन्तु लौकिके यदि तस्य प्रयोगः वयं कुर्मः तानि वर्णाः न तिष्ठन्ति तेषां लोपः भवति अतः ते तेषाम् इत्संज्ञा भवति इति ज्ञायते अस्तु अत्र एकमस्ति लिखितमस्ति उपदेशलौकिक तर्हि उपदेश लौकिक उपदेश च मध्ये भेदः कः उपदेशः ये यत् पाणिनिना दीयते तत् उपदेशः लौकिकः नाम वाक्येषु उपयोगः इति लौकिकः इति मन्ये न जाने अहम् अस्तु महोदय समीचीनमस्ति महोदय तर्हि किमस्ति यत् पाणिनिना ये ये ग्रन्थाः कृताः अष्टाध्यायी अस्ति धातुकोषः अस्ति तत्र ये ये सन्ति ते उपदेश अवस्थायां सन्ति नाम तस्य मूलरूपाणि तत्र सन्ति परन्तु लौकिकभाषायां लौकिकभाषा इत्युक्ते या भाषा अस्माभिः अधुना उपयुक्ता वाक्येषु सम्भाषणेषु इति सा लौकिक सा लौकिकभाषा तर्हि लौकिकभाषा भाषासु लौकिकभाषायां बहूनि धा बहूनि धातवः श च तेषां रूपाणि भिन्नानि सन्ति तत्र अत्र एकम् उदाहरणमस्ति गम् धातु वयं सर्वे गम् धातुः जानी जा वयं सर्वे गम् धातुः जानीमः गम् धातु, जानी गम धातु इत्युक्ते हलो तु गो गच्छति गच्छति गच्छति गच्छति गच्छ गच्छति गच्छतः गच्छन्ति इति परन्तु उपदेश अवस्थायां नाम पाणिपाणिनेः मूलग्रन्थे तस्य रूपम गम इति नास्ति तत्र गम्लृ अस्ति गम् ऋ तर्हि गम् ऋतः कुतः अभवत् कथम् अभवत् तत्र लृ इति वर्णस्य लोपः भवति लोपः कथं भवति के ये सूत्राणि सन्ति ये लोपकार्यस्य लोप लोप लोपकार्यं कुर्वन्ति ते ते सूत्राः के सन्ति तर्हि एक इत् संज्ञाप्रकरणम् अस्ति ये ये वर्णाः तत्र भवन्ति उपदेशे ये ये वर् वर्णाः लुप्ताः भवन्ति तेषां नाम अस्ति एक अनुबन्धः अनुबन्धः अस्ति तर्हि तेषाम् ते एका विशिष्टसंज्ञा अपि भवति हि संज्ञा तर्हि अस्माभिः अधुना इत्संज्ञाप्रकरणं पठनीयं वयं जानीमः यत् के के वर्णाः लुप्ताः भवन्ति कुत्र कुत्र भवन्ति कदा कदा भवन्ति इति तर्हि एकम् अधुना एकं एकम् अन्य उदाहरणम् उदाहरणमपि सन्ति तत्र कृ क्रु धातु अस्ति खलु क्रु धातु इट् मीन्स् टु करोति कुर् कुरुतः कुर्वन्ति इति तत्रापि अष्टाध्याय्याः मूलरूपं क्रु इति न अस्ति तद् रूपमस्ति डु क्रीञ् डु क्रीञ् तर्हि डुक्क्रिय मध्ये डु तथा डु क्रिच डु क्रिञ् डु हि इति अनुबन्धाः सन्ति ते लुप्ताः भवन्ति तर्हि तेषाम् इत्संज्ञाप्रकरणम् अस्ति तर्हि अधुना अग्रे गच्छामः परन्तु येषां येषां समीपे यस्य यस्य समीपे अत्र अष्टाध्यायीसूत्रपाठः पुस्तकमस्ति तत् पुस्तकं कृपया उद्घाटयतु तत्र वन् पाय्ण्ट् त्री अध्याये द्वितीय तृतीयपादे द्वितीयसूत्रं वन् थ्री इति कृपया तत्र गच्छतु तत्र अस्ति, अस्ति पेज् नम्बर् पेज् नम्बर् अस्ति फार्टिवन् सूत्रपाठे पेज् नम्बर् फार्टिवन् अस्ति एकचत्वारिंशत् पूटे तर्हि तत्र इत्संज्ञाप्रकरणम् अस्ति तत्र अष्टसूत्राणि सन्ति कोऽपि पठति वा पुस्तके ते केके के के पठाम आं महोदय अहं पठामि <coughs> प्रथमोदयस्य द्वितीयपादधातुसंज्ञा प्रथमं भुवादयोः धातवः इति संज्ञाप्रकरं द्वितीयम् उपदेशे जनुनासिकः इति तृतीयं हल्यन्तं चतुर्थं न विभक्तौ तु स्माः पञ्चमम् आदितं लोपविधि नवं तस्य लोपः परिभाषा सूचय तर्हि अष्ट अष्ट सूत्रा सूत्रा अष्टसूत्राणि सन्ति द्वितीयसूत्रात् आरभ्य नवमसूत्रपर्यन्तं ते सर्वे इत् संज्ञाप्रकरणस्य सूत्राणि सन्ति तानि सूत्राणि वयम् अद्य पठामः अस्तु अग्रे गच्छामः मीना महोदय अस्ति खलु मीना सुन्दरे सन् अनुना अनुनासिकाः स्वराः मयि एक सन्देश सन्देहमस्ति महोदय <laughs> वयं जानीमः उपदेशे अस् गम् गम्ल गम् लृ दातोः इति नाम उपदेशे दा दातु लृ इति इत् इति वयं जानीमः कुत्र लृ इति इत् इति संज्ञा कुत्र अस्ति तदेव महोदय अधुना वयं पठामः खलु कथं जानीमः लृ इति इत संज्ञा अस्ति अनुनासिकाः स्वराः उपदेशे नाम पाणिनेः मूलधातुषु मूलप्रत्ययेषु मूल आदेशेषु मूलागमे मूल, मूल आगमेषु मू, मूल मूल च केचन स्वराः अनुनासिकाः अनुनासिकस्वरः नाम यस्मिन् अनुनासिक अनुनासिकचिह्नम् अस्ति सा, चन्द्रबिम्बं सा, सामान्यतया धातुकोकोषेषु पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते किं किमर्थम् इति चेत् प्राचीनकाले एकं स सम्पूर्णं स्वरविज्ञानम् आसीत् अस्माकम् आधुनिक युगे इदं, आ, इदं विज्ञानं लुप्तमः अतः आत, स्वरविषये अस्माकं क्लेशः स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि किन्तु किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति यथा उपदेशे अनुनासिक इत् एक प्रथमपादं तृतीय प्रथम पादं तृतीयपा पादं द्वितीय द्वितीयसूत्रम् इति प्रथमम् इति स प्रथमम् इत् संज्ञा विधा सूत्रम् उपदेशे उपदेशावस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्सं न भवति अनेन सूत्रेण अस्तु किं लिखितमस्ति महोदय पुनरपि वदतु भवान् सारांशः कः के स्वराः किमरः न न न अहम् अहं पठामी, भवत्या यत पठितं तस्य सारांशः कः अत्र ah, um, अनुनासिकस्वराः के किम् अस्ते अस्ति वदति उपदेशे पाणिनेः मूलधातुषु धातुषु पत्रेषु आदेशेषु आगमनेषु च केचन स्वराः सन्ति परन्तु आधुनिक आधुनिकिह्नं नास्ति वयं न ना, ना, ना, ना, कुत्रापि अनुना अनुनासिकचिह्नं न दृश्यते कि किमर्थमिति चेत् प्राचीनकाले सम्पूर्णतया स्वरज्ञानम् आसीत् इदानीं तत् ज्ञानं नास्ति लुप्तमेव स्वरविषये अस्माकं वयं ज्ञातुं क्ले क्लेशः भवति स्व स्वरविज्ञ तस्य अभावे धातुकेषु अनुनासिकचिह्नानि तस्मात् न दत्तानि तस्मात् किन्तु स्वरेषु उपदेशे अनुनासिक इत् इति प्रथमम् इत् इत्संज्ञाविधा सूत्रम् अस्ति उपदेश अवस्थायां यः अच् अनुनासिक अस् आस, अस्ति तस्य इत् भवति अनेन सूत्रेण आम् उत्तमं महोदय तर्हि किं लिखितमस्ति यत् अस्माभिः माहेश्वरसूत्राणि इति करपत्रे अस्माभिः पठितं खलु यत् स्वराः ये सन्ति यत् अ आकारः इति अकार अकारः यदस्ति अवर्णः तस्य वस्तुतः अष्टादशप्रकाराः सन्ति तत्र वयं पठितं खलु यत्र ह्रस्वदीर्घप्लुत् स्वरित उदात् अनुदात् अनुनासिक अननुनासिक इति अस्माभिः पठितं ननु तर्हि एकं प्रकारम् एक प्रकारमस्ति स्वरस्य अनुनासिकम् इति स्वरम् अनुनासिक अस्ति वा नास्ति वा इति अनुनासिक इति अस्माभिः लौकिकभाषायां हिन्दीभाषायाम् अस्माभिः दृष्टमस्ति यत् चन्द्रबिन्दुः अस्ति तत्र तर्हि वस्तुतः किम् अस् अस्ति यत् प्राचीनकाले स्वरविज्ञानम् इति एकः सम्पूर्णः आसीत् प्रा स्वरविज्ञाने पठितं यत् कुत्र अनुनासिक अस्ति अनुनासिक नास्ति अस्वरितः अस्ति उदात्तः अनुदात्तः कुत्र कुत्र अस्ति इति स्वरविज्ञाने आसीत् परन्तु दुर्दैवे किमस्ति यत् अधुना स्वरविज्ञानयुक्तः अस्ति अधुना लौकिकभा लौकिक भाषायां पण्डिताः न जानन्ति यत्र पण्डिताः अथवा जनाः न जानन्ति यत् के के वर्णाः अनुनासिकाः सन्ति कुत्र अनुनासिकाः सन्ति कुत्र न सन्ति इति तर्हि तस्य महत्त्वं किं यत् अनुनासिकवर्णानाम् अनुनासिकस्वराणाम् उपदेशे यदा यदा अनुनासिकस्वराः आगच्छन्ति तत्र तत्र तस् लोपः भवति केन सूत्रेण लोपः भवति उपदेशे अज् अनुनासिक इत् इति सूत्रमस्ति एकं प्रथमं सूत्रमस्ति अग्रे तस्य अग्रे तस्य डिटेल् मध्ये वयं चर्चां कुर्मः परन्तु अत्र लिखितमस्ति यत् उपदेशे अज् अनुनासिक इत् इति सूत्रेण उपदेश अवस्थायां यदा यदा अनुनासिकवर्णः आगच्छति तस्य लोपः भवति इति तर्हि प्रथम प्रथम तद्भिः प्रथमतया वस्तु वस्तुतः अस्माभिः ज्ञातव्यं यत् आनुमासिकस्वरः कः अस्ति अस्ति चेत् तस्य लोपः भवति इति अस्तु जानकीमहोदय अस्ति खलु जानकीराजा नमस्ते महोदय अहं वाहनं चालयन्ती अस्मि गृहं गत्वा पठिष्यामि अस्तु महोदय अस्तु अस्ति। अग्रे के स्वराः अनुनासिकाः इति विज्ञानं यदा अस्माकं सविधे नास्ति तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नु सक्मि शक्नुयाम वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात् hmm. यत्र मूलधातौ कश्चन स्वरः आसीत् लौकिक यौकिधा न सहस्व अक आस उपदेशे अनुना सूत्रेण तरह लोप जामृ धा अच्छ वर्णपदिकत अस्थित लौकिक धात च नास्थ अतः तस्य लोपः जातः स्यात् अनेन बुध्यते यत् रु इति अच् अनुनासिकः अपि च उपदेशे अनुनासिकः इति सूत्रेण तस्य यत् संज्ञा भवति तदा अन्यसूत्रम् तस्य लोपः येन यत् संज्ञकवर्णानां लोपः भवति तर्हि तस्य लोपः इत्यनेन रु लोपः दम् इति अवशिष्यते अस्तु मम सन्देहस्य पूर्तिः अस्ति अत्र आम् आं महोदय अस्तु प्रतिभा महोदय किं लिखितमस्ति सारांशः कम् कथं विवरणं दत्तम् अनाजिके विज्ञानं न कथं विवरणं दातव्यम् इति के स्वराः अनुनासिकाः इति विज्ञानं अस्माकं सविधे नास्ति कथं सू सूत्रस्य प्रयोगं कर्तुं शक्नुमः अनुनाशक्तिचिह्नम् अस्ति चेत् अनुमानं कर्तुं शक्नुमः यथा गमीरू दातु क्षम्यताम् अस्तु चिन्ता नास्ति अहम् अहं वदामि यत्र अस्तु वयं जानीमः खलु यत् स्वराः अणुनासिकाः सन्ति चेत् तेषां लोपः भवति उपदेशे अनुनासिकः इति सूत्रेण तेषां लोपः भवति अतः अस्माभिः ज्ञातव्यं यत् क कुत्र कुत्र, कुत्र स्वरः अनुनासिकः अस्ति कुत्र कुत्र नास्ति इति परन्तु वयं जानीमः यत् स्वरविज्ञान इति विषयः अधुना लौकिकभाषायां नास्ति लुप्ता लुप्तः भवति जनाः न जानन्ति स्वरविज्ञानं तर्हि कथं जानीमः यत् कुत्र अनुनासिकः अस्ति यदि वयं न जानीमः यत् कः स्वरः अनुनासिकः अस्ति कः नास्ति वा तर्हि कथं कथं तस्य स्वरस्य लोपः अस्माभिः कृ करणीयः इति तर्हि किम् अस्ति यत् रिवर्स् मध्ये वयं कर्तुं शक्नुमः रिवर्स् मध्ये कर्तुं शक्नुमः नाम यदि अस्मा यदि अस्माकं समीपे लौकिकधातुः अस्ति उपदेशधातुः अस्ति तर्हि वयं कम्पेर् कृत्वा वयं ज्ञातुं शक्नुमः यत् कस्य स्वरस्य लोपः अस्ति यस्य स्वरस्य लोपः अस्ति तत् स्वरः अनुनासिकस्वरः अस्ति यतोहि वयं जानीमः यत् उपदेशे अज् अनुनासिकः इति सूत्रेण उप अनुनासिकवर्णस्य लोपः भवति अनुनासिकस्वरस्य लोपः भवति इति तर्हि अत्र एकम् अस्ति खलु गम्लृ तर्हि उपदेश गमनस्य धातुः तस्य रूपम् अस्ति गम्लृ परन्तु आ, लौकिकभाषायां वयं जानीमः यत् तस्य रूपः अस्ति गम् गम्रु रू, रूपमस्ति गम् तर्हि अस्माकं वयं द्रष्टुं शक्नुमः यत् लृ लृ इति स्वरस्य लोपः अस्ति लृ इति स्वरस्य लोपः अस्ति अतः उपदेश अज् इति सूत्रेण तदे उपदेश अज् अनुनासिक इति लोपः इति सूत्राभ्यां वयं ज्ञातुं शक्नुमः यत् लृ स्वरस्य लोपः अस्ति अतः लृ लि एव उपदे अनुनासिकस्वरः अस्ति यतोहि अनुनासिकस्वरः नास्ति चेत् तस्य लोपं कथं भवितुं शक्नोति अतः गम्लृ इति धातु धातौ लृ स्वरं यत् अस्ति ऋ स्वरः अनुनासिकस्वरः अस्ति इति अस्तु अग्रे गच्छामः कोपि प्रश्नः अस्ति वा सर्वे अवगच्छन्ति खलु इद इदानीं पर्यन्तम् अवगच्छामि वा महोदय अस्तु कोपि अन्य को सन्दे सन्देहः अस्ति वा अन्यजनस्य अस्तु अग्रे गच्छा मातरि श्रीराम महोदय नमस्ते नमस्ते महोदय अग्रे पठतु लृ अनुनासिक अस्ति इति कथम् ज्ञातम् फलम् दृष्ट्वा लोके गम इत्येन दृश्यते अतः लृ इत्यस्य लोपः लोपः जातः चेत् उपदेशे अजनुनासिक इत् इत्ये इत्येव सूत्रेण अर्हति स्म अतः लृ अनुनासिक अनुनासिकः स्यात् इति अनुमानम् अस्माकम् कुत्रचित् स्वरस्य इत् संज्ञा प्राप्तिः भवति अपरेण सूत्रेण यथा स्वरः अन्येन अन्येन वर्णेन सह विशिष्टः विशिष्टः वर्णसमूहः भवति यथा डुपचप् दुपच्छ। क्षम्यतां डुपचष् इत्यस्मिन् इकारोत्तर इकारोत्तरवर्ती यः उकारः अस्ति महोदय धन्य क्षम्यता महोदय डकारोत्तरीयः उकारः अस्ति सः उकारः अनुनासिकः नास्ति तत्र डु इत्येव एकः वर्णसमूहः अदह एतादृशं विशिष्टं इत् सञ्ज्ञ कार्यम् अपि प्रदर्श्यते Uh, uh, किमर्थं स्ववाक्येन वक्तुम् इति uh, वक्तुं शक्नोमि इति चिन्तयामि महोदय अस्तु uh, uh, uh, अत्र अनुनासिक इति uh, वयं कथं uh, जानीमः अत्र अन्तररूपं कथं भवति कथं भवेत् इति दृष्ट्वा एव अहं ज्ञातुं शक्नुमः अत्र लोपः लृ इति अनुनासिकवर्णस्य लोपः भवति इति अनन्तरं उपदेशधातोः गम् लृ इति रूपं पश्यति चेत् अत्र अनुमानं कर्तुं शक्नुमः लृ इति स्यात् एतस्य वर्णस्य लोपः अत्र भवति इति अनन्तरम् अन्य स्थले अपि इत्संज्ञायाः दर्शनं भवति अत्र कथं वर्णया कथं वर्णनं करोमि इति न इति चिन्तयामि महोदय भवान् एव कृपया वदतु अस्तु अस्तु चिन्ता नास्ति अत्र किमस्ति यत् द्वितीयम् अन्य एकं कार्यमस्ति यत् अत्र डुपचष् इति अस्ति खलु डुपचष् डुपचष् एकम् एकम् उपदेशावस्थायाम् एकं मूलधातुः अस्ति वस्तुतः लौकिक लौकिकभाषायां तदस्ति पच् इति पच् धातु, धातु, धातु जानीमः पचन पच पचन से धा टुकुटुपचा अस्थल वर्णसमूह अस्त तरी लौकिभाषायां डुरी ना धाते डु तरी वर्णसमूह तरह लोप अकार यसिक किमर्थं त्वं वदतिह इति एकवर्णमेव न महोदय द्वे वर्णे स द्वे वर्णे स्तः खलु ड उ ड् उड् अत्र ई नास्ति महोदय ड अस्ति ड ड अस्ति ड उ अत्र अस्ति ड तस्य लोपः भवति एक नूतनसूत्रमस्ति तस्य सूत्रस्य तस्य सूत्र तस्य तेन सूत्रेण डु इति तस्य लोपः भवति तर्हि अत्र उकारः अनु अनुनासिको नास्ति परन्तु डकारोत्तरवर्तीय उकारः अस्ति तर्हि डु तस्य पूर्णवर्णसमूहस्य लोपः भवति इति वयम् अग्रे पठिष्यामः अस्तु अग्रे अग्रे कः अस्ति रविमहोदयः अस्ति खलु रवि चित्कर आम् अस्मि आं महोदय पठतु अग्रे कुत्र अस्ति इदानीम् महोदय एकं तृतीयकरपत्रमस्ति खलु इप् संज्ञाप्रकरणं तत्र आ, ये अनुनासिका स्वराः एक उपभागः अस्ति तस्य एक तस्य पेनल्टिबेट् यत् अस्ति अनुच्छेदः तर्हि इप्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति लब्धं वा ततः पठतु तस्य उपरि अस्ति तर्हि इत् संज्ञाप्रकरणं सप्तसूत्राणि सन्ति तर्हि इत् संज्ञाप्रकरणे सप्तसूत्राणि सन्ति अष्टाध्याय्यां चतुर्सहस्रं सूत्राणि किन्तु तेषु केवलं सप्तभिः इति इत्संज्ञा विधीयते सप्तसूत्राणि ज्ञायन्ते चेत् सर्वं इत्संज्ञाप्रकरणं ज्ञायते इमानि च सप्तसूत्राणि पाणिना सौकर्यार्थम् एकत्र स्थापितानि अष्टाध्याय्यां इतसंज्ञाप्रकरणे सप् सप्तसूत्राणि सन्ति ते सर्वे सूत्राः एक एकत्र एक एकस्थाने एक, एक, एक एव तिष्ठन्ति यदा यदि वयं एतानि सूत्राणि जायन्ते तदा वयं इत्सङ्ख्याविषये अस्माभिः इत्सङ्ख्याविषये सौकर्यम् अस्ति उत्तमं सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते धातुषु प्रत्ययेषु च त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु अत्र प्रत्ययः इत्यनेन प्रत्ययाः आदेशाः आगमः त्रयाणाम् अपि ग्रहणं सप्तषु सूत्रेषु केवलं आ... आ... च चत्वारि सूत्राणि धातुषु च प्रत्ययेषु प्रयुज्यन्ते hmm. च त्रीणि सूत्राणि प्रत्ययेषु विषये सन्ति अस्तु hmm. अस्तु अग्रे गच्छामः तर्हि धन्यवादः महोदय सरला कुशालानि अस्ति खलु सरला, सरला महोदय अग्रे पठतु कृपया अस्तु संज्ञाप्रकारं चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु सप्तसूत्राणि सन्ति तस्मात् प्रथमचतुर सूच चत्वार चुरी सूत्रण धाषु प्रतयु औ आदेश आगमेसु ये मूल अवस्था सी उपदेश अवस्था सी तस् प्रसिद् अस्ट प्रथम उपदेशे जनुना प्रथम अध्याय से उपदेशे धात प्रत्यय आदेश आगमे अचुवर्णः अनुनासिकः चेत् तस्य इत् संज्ञा भवति उपदेशे सत्यम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इच् प्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णम् उपदेशे अच् अनुनासिकः इदानीं सूत्रस्य व्याख्या अस्ति उपदेशे आ, उपदेशे मूल अवस्था धात प्रत आदेश आगमे चुरी प्र, प्रत्यय तसक्ति अस्सी अज्नुना पूर्वरूपंधि अस्ट उपदेशे आ, अवग्रह अचुवर्णः अचुथिप्रत्याहारः अस्ति तस्मिन् सर्वे स्वराः आगच्छन्ति अनुनासिक चेत् अनुनासिक इत्युक्ते यदा वयम् इदानीं पठितवन्तः अनुनासिकस्वराः ते यदि अचुवर्णस्य कोऽपि स्वरः अनुनासिकः अस्ति तस्य संज्ञा भवति संज्ञा भवति तत्र नाम कृतमस्ति संज्ञा भवति संज्ञा अस्ति नामकरणं नामकरणं संज्ञासूत्रं भवति एतत् सूत्र उपदेशे अभक्ति तस्य अस्ति सप्तमत्र उपदेशे भवति विषयसप्तमी उपदेशे अच् प्रथम Uh, uh, अच् यस्य uh, लोपः भवति तत् अच् अस्ति uh, प्रथमान्तं कार्यम् अस्ति uh, तस्य नन्तरं संज्ञाकार्यमस्ति नाम भवति संज्ञा लोपः इदानीं न भवति uh, अन्यसूत्रस्य प्रसक्तिः आग आगत्य लोपः भवति अनुनासिक uh, अनुनासिक अपि प्रथमान्तं विभक्तिः अस्ति इति प्रथमान्तं सो so, uh, yeah, uh, अनेके पदानि अने अने अत्र अनेकानि पदानि अस्ति अत्र संपुरन संपुरन उपदेशे अच् अनुनासिक इति अतः अनेकपदं सूत्रम् इति वदामः अन्यसूत्रवृत्तिः अत्र नास्ति अतः सम्पूर्णं सम्पूर्णमस्ति सूत्रम् उपदेशे अच् अनुनासिक इति बहु उत्तमं तर्हि मम प्रश्नः अस्ति अत्र उपदेशे यत् अस्ति खलु उपदेशे सप्त सप्तविभक्तिस्थाने तस्य स्थाने तर्हि तथैव प्रश्नः अस्ति अत्र सप्तमीविभक्तिः अस्ति तर्हि कोऽपि पूर्वकार्यमस्ति वा अत्र अत्र पूर्वकार्यं नास्ति किन्तु अहं चिन्तयामि विषयसप्तमी अस्ति उपदेशे अवस्थायां लौकिक सङ्केतम् अस्ति न तु व्याकरण अहं कथयितुं शक्नोमि यत् सर्वदा यत्र यत्र सत्यविभक्ति आगच्छति सूत्रेषु तस्य अर्थः एतत् नास्ति यत् पूर्वकार्यं तत्र भवितव्यं इति तर्हि एकनिमित्तसप्तमी अस्ति निमित्तसप्तमी अस्ति चेत् तस्य तत्र तत्र अर्थः अस्ति यत् पूर्वकार्यं करोतु इति परन्तु बहुधा बहुत्र यत्र यत्र अस्ति सत्वविभक्ति तस्य लौकिकभाषायां यत् अर्थः अस्ति नार्मल् अर्थः अस्ति तदेव अस्ति यत् तत् अवस्थायां यदि अत्र अस्ति उपदेशे अत्र उप सत्वविभक्तिः अस्ति परन्तु अत्र किमपि पूर्वकार्यम् इति पूर्वकार्यम् इति नास्ति केवल उपदेश अवस्थायाम् अच् अनुनासिकः अस्ति चेत् तस्य इत् संज्ञा भवतु इति एव अस्ति नार्मल् यत् अस्ति सप्तमीविभक् सप्तमीविभक्त्यां यत् सप्तमीविभक्त सप्तमीविभक्तेः यत् नार्मल् अर्थः अस्ति खलु सामा सामान्य अर्थः यद् अस्ति तदेव अर्थः अस्ति अस्तु प्रायः महोदया बहु समीचीना समीचीना व्याख्या दत्ता अतः कोऽपि क्लेशः नास्ति इति अहं चिन्तयामि अस्तु अग्रे गच्छामः अमित् महोदय आम् अग्रे पठतु हलन्त्यं द्वितीयबिन्दुः हलन्त्यं प्रथम अध्याय तृतीयपादं तृतीयसूत्रं हल्यन्तं हलन्त्यम् इति इत्युक्ते उपदेशस्य अन्ते हल् अस्ति चेत् तस्य हल् वर्णस्य इत्संज्ञा भवति इत्यत्र सूत्रे पठतु हल... ओके हल्यन्त्यं वन् uh, इत्युक्ते उपदेशस्य अन्ते हल् अस्ति चेत् तस्य हल् वर्णस्य भवति हल् अन्त्यं प्रथमान्तं द्विप द्विपदम् इदं सूत्रम् <clears throat> अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत् अधुना hmm. व्याख्या वदतु व्याख्यां वदतु हलन्त्यम् इति सूत्रम् अस्ति अत्र हल् हल् हल् अन्त्यं द्व द्वे द्वौ पद पदौ अस्ति हल् प्रथमान्तं पदम् अन्त्यम् अपि प्रथमान्तम् अत्र उपदेशे च इति च द्वौ पदौ अनुवर्तते सम्पूर्णसूत्रं भवति उपदेशे अन्त्यं हल इत् तदर्थमस्ति उपदेशे ना? ना? सूत्रे प्रश्नः अस्ति उपदेशे तथा तर्हि इत् इति द्वे पदे सूत्रे तु न भवतः ते पदे कुतः आगच्छतः पूर्व पूर्वसूत्रे सूत्रात् अनुवर्तते अत्र अनुवृत्तिः अस्ति अनुवृत्तिः अस्तु वदतु अर्थः सूत्रस्य उपदेश अवस्थे अवस्थायां अन्त्यं हल, लास्ट हल, हल कमिंग एट दि एंड, तस्य हलस्य इति सन्या भवति इति हल, हल हल् किमस्ति महोदय हल इत्युक्ते कान्सोने व्यञ्जनानि हल प्रत्याहारे सर्वे हल प्रत्याहार हल प्रत्याहारे के के वर्ण सर्वे नाम सर्वे व्यञ्जनानि सर्व सर्वे भिंजनाने। भिंजनाने। हा सर्वे व्यञ्जनानि सर्वाणि व्यञ्जनानि सर्वाणि व्यञ्जनानि धन्यवादः प्रायः इदं सूत्रमपि सरलमस्ति उपदेश अवस्थायां यत् हल् वर्णः यः हल् अन्ते आगच्छति तस्य इत्संज्ञा इति भवति इत अस्तु धन्यवादः महोदय अग्रे आमाम् अस्तु भवती एव पठतु अग्रे अस्तु न विभक्तौ तु स्माः प्रथम अध्यायस्य तृतीयपादस्य चतुर्थ चतुर्थं सूत्रं विभक्त्यां कवविधीयवर्णः सकारः मकारः च हितसम्यकाः न भवन्ति विभक्तिश्च प्रथम अध्यायस्य चतुत्तर एकशत एकशततमसूत्रम् सुप्रत्यायाह सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसम्यकाः इदम् सूत्रम् हलन्त्यम् इत्यस्य अपवादः तुश्च इश्च नश्च तेषाम् इतरेतरद्वन्द्वः तुस्माः न अव्ययपदम् विभक्तौ सप्तम्यन्तम् तुस्माः प्रथमान्तम् त्रिपदमिदम् सूत्रम् अनुवृत्तिसहितसू अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अंत्याह हलह तुस्माह न इतः तर्हि अर्थात् अत्र हलन्त्यम् इति आसीत् तस्य अपवादः अत्र दत्तमस्ति इत्युक्ते अत्र विभक्ति विभक्तिषु तु तु इस् म आगच्छति चेत् विभक्ति विभक्तिश्च विभक्ति इत्युक्ते तद् सुभन्तेषु अपि भवितुमर्हन्ति तिङ् विषयाः अपि विभक्तिसङ्खताः विभक्ति इति नाम प्राप्ताः सन्ति अतः यदा विभक्तिषु सुभन्तेषु वा नो चेत् तिङन्तेषु वा प्रत्यय प्रत्ययाः इस् तु नो चेत् म इति आगच्छन्ति चेत् तेषां लोपः न भवति तेषाम् इत्संज्ञा न भव, इत भवति इत् न भवति अत्र सू, सू, सूत्रस्य अनुवृ पूर्वतनसू सूत्रतः अनुवृत्तिसहितम् उपदेशे उपदेशे इत्युक्ते मूलधातुषु उपदेशे विभक्तौ अन्त्याः हलः अन्ते हा, विद्यमान हलः हा, तस्य यदा तु इस् इम् भवति चेत् तस्य इत् संज्ञा न भवति इति अस्ति तर्हि महोदय अत्र तु इति किमस्ति तु तु तस्य अर्थः तु सम्पूर्णतवर्गं भवति वा जि नो चेत् केवलं सम्पूर्णतवर्गं वा सम्पूर्णतवर्गम् तवर्गे के के वर्णाः सन्ति प्रायः सर्वे जानन्ति एव तर्हि अत्र एकं तर्हि पाणिनी तस्य ईदृशी तस्य एक तस्य प्रकृतिः अस्ति पाणि पाणिनेः यत् सः सर्वदा एक सूत्रं दद ददाति तदनन्तरं तस्य अपवादः अपि ददाति नाम देर् इस् आल्वेज् अ जनरल सूत्र तदनन्तरं तस्य एक्सेप्शन् अस्ति दिस् इस् पाणिनि स्टैल् तर्हि अत्र न विभक्तो तु स्माः हलन्त्यम् इति सूत्रस्य एकः अपवादः अस्ति हलन्त्यं किं वदति यत् कुत्रापि उपदेशे अन्ते हल आगच्छति तस्य इत् संज्ञा भवतु परन्तु एकः अपवादः अस्ति विभक्ती नाम एक्सेप्शन् अस्ति यत् विभक्तिः अस्ति विभक्ति नाम किं विभक्तिः इति तस्य अर्थः अस्ति सुप्रत्ययः नाम ये प्रत्ययाः सुबन्तेषु अन्ते आगच्छन्ति तिङ्क् प्रत्ययाः नाम ये क्रियापदानां क्रियापदानाम् अन्ते आगच्छन्ति ते प्रत्ययाः ये सन्ति तेषां प्रत्यय तेषु प्रत्ययेषु अन्तिमे यदि उपदेश अवस्थायां तवर्गस्य कोपि वर्णः सकारः अथवा मकारः आगच्छति तस्य इति तस्य चित् संज्ञा नास्ति इति अपवादः दत्तम् अस्ति न विभक्तो पुष्णाः इति सूत्रे तत्र न अव्ययं पदं किमर्थम् अत्र अस्ति महोदय अव्यय अव्ययः किमस्ति अव्ययं न व्येति इति अव्ययं नो चेञ्जस् न इति यत् अस्ति सूत्रे न तस्य कोऽपि विभक्ति नास्ति खलु तत् अव्ययपदमस्ति तर्हि तर्हि यदि विभक्तौ इति पदे सति विभक्तिः अस्ति तु स्माः इति पदे प्रथमविभक्तिः अस्ति परन्तु न इति पदे कापि विभक्तिः नास्ति अतः तत् तत्तु अव्ययपदम् अस्ति इति अस्तु तर्हि त्रीणि सूत्राणि जातानि प्रायः कोऽपि प्र, प्र, को प्रश्नः अस्ति वा इत्पर्यन्तं महोदय oh, इत स्पष्टीकरणार्थं तव सकारमकार अन्ते उपदेशे वसामि विभक्त्यां सन्ति तर्हि तत् तेषां लोप संज्ञानं भवति न न न केवलम् अन्ते अत्र हलन्त्यम् इति सूत्रात् अन्त्यम् इति पदस्य अनुवृत्तिः भवति तर्हि पदे विभक्तौ अन्त्याः हलः तुस्मात् नैव तर्हि अस्ति किमर्थमस्ति यतोहि अन्त्ये यदि नास्ति तस्य इत् संज्ञा तु न भवति एव विभक्तौ विभक्तौ अस्ति वा विभक्तौ नास्ति वा अन्ते एव आगच्छति चेत् प्रश्नः अस्ति खलु इत्संज्ञा अस्ति इत्संज्ञा नास्ति अन्यत्र कुत्रापि आगच्छतु तस्य प्रश्नः एव नास्ति तत् इत्संज्ञा न भवति एव अस्तु अस्तु अग्रे पठामः तर्हि विजया महोदय अस्ति खलु विजया सन्देहः अस्ति सुप्रत्ययः सुौजस् अस् उदाहरणं सुस् सकारणम् अन्तिमहल् वर्णः एव विभक्तिः अपि किमर्थं न इत्सज्ञा अस्ति तस्य जस् लोपः एव एव तर्हि महोदय सकारस्य लोपः न भवति आम् तत्र सु औ जस् तत्र सकारस्य जस् मध्ये लोपः न भवेत् तत् इत्संज्ञा न अस्ति तर्हि अन्यत् कार्यमस्ति यत् तेन कारणेन तस्य विसर्गः एव भवति परन्तु तस्य लोपः न अस्ति सकारः अस्ति प्रक्रियायां तस्य प्रक्रियायां तस्य महत्त्वपूर्ण तस्य काण्ट्रिब्यूशन् अस्ति योगदानमस्ति लोपः न भवति अस्तु अग्रे वदामि प्रथम अध्याये तिस्रकपादः चतुर्थ पञ्चमसूत्रम् उपदेशस्य आदौ णि टु ढु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य यत् संज्ञा भवति णि डु ढु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते णि च ढु चु च तेषाम् इतरेतरद्वन्तः इतरे निडुढु बहुवचने निढूढवः गुरुशुतः इव आदि प्रथमान्तं निडूढवः प्रथमान्तं द्विपदम् इदं सूत्रम् आदिः इति च बहुत्वे एकवचनृत्तिः सहितसूत्रं अन्त्यवर्णः कोपि इति पठितवन्तः खलु अधुना धातोः आ आदे आदेः आदिवर्णः आदिवर्णः डु निु इति त्रिषु वर्णसमूहः अस्ति चेत् तत् तस्य इत् संज्ञा भवति इति ज्ञातव्यं नीडुडुः एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृ धातूनां कृते ये एतानि त्रि त्रीणि त्री वर्णः धातुषु एव भवन्ति अतः इत्थं सूत्रं धातुनाम धातूनां कृते कृतं निर्दिष्टं वस्तुतः कुत्रापि कुत्रापि लिखितं नास्ति यत् धातूनां कृते एव तर्हि कोऽपि अनुलप्तिः न अस्ति धातोः इति पदस्य अथवा यतो हि उपरि उपरितनसूत्रेषु अपि धातुः इति सूत्रापि न लिखितम् परन्तु एतानि वर्णसमू एते वर्णसमूहाः केवलं धा धातूनाम् अग्रे धातूनाम् आदौ आगच्छति अतः भविता अर्थः अस्ति यत् धातूनां कृते एव सूत्रस्य प्रसक्तिः अस्ति महोदय अत्र न विभक्तौ इति सूत्रे अस्माभिः पठितं यत् अस्तु तर्हि अत्र प्रश्न अस्ति सम्पूर्ण टवर्गः अस्ति वा इति प्रश्न अस्ति प्रश्नः अस्ति इत्युक्ते टवर्गः सम्पूर्ण टवर्गः डु इत्य न अवगतं तर्हि अत्र टवर्गस्य प्रतीकः नास्ति इति नास्ति नास्ति जानीमः मम प्रश्न कथं ज्ञातव्यं महोदय तस्य कथं ज्ञातव्यम् इति तु समीचीनं जानीमः यत् सर्वदा एतत् सर्वदा प्रश्नः अस्ति मम एव यदा अहमपि प्रथमवारं पठितमासीत् मम अपि प्रश्नः आसीत् यत् टु इति कथं जानीमः टवर्गः नास्ति तर्हि एतत्तु अभ्यासेन एव वयं ज्ञातुं शक्नुमः स आ, आ, सर्वं तु अष्टाध्यायं mm. न अस्ति खलु तस्य व्याख्या तु अस्माभिः अभ्यासेन एव ज्ञातव्या तर्हि अष्टाध्यायस्य बहु अस्ति कामेण्ट्रीस् सन्ति टिप्पण्या सन्ति यदि कात्यायनस्य अस्ति पतञ्जलि अस्य अस्ति पतञ्जलिः अस्ति तर्हि बहु व्याख्यानि सन्ति तद् अभ्यासेन एव वयं ज्ञातुं शक्नुमः तर्हि किं कथयितुम् इच्छामि यत् आदि यदि टवर्गः आगच्छति तस्य इत् संज्ञा मा करोति इति वर्णसमूहस्य इति संज्ञा महोदय चेत् पृष्ठतः एव डु आगच्छति खलु अतः टवर्गस्य एव ड आगच्छति तेन कारणेन स तादृशं भवितुम् अर्हति इति मया चिन्तितं <coughs> परन्तु प्रश्नः एवमपि प्रश्नः एवमपि अस्ति खलु तर्हि डकारः अस्ति तत्र डकारः केवलं डु इति अस्ति चेत् करोतु परन्तु ठ ठ अस्ति चेत् किं करणीयं ढ अस्ति चेत् किं करणीयम् इति प्रश्नः परन्तु अभ्यासेन वयं ज्ञातुं शक्नुमः केवलं टु इति अस्ति सवर्गः नास्ति अत्र अर्णसमूह अस्त किल तुम्हें कर्म शक्नोम यवल वर्णसमूह ग्रहणीय अपूर्णवर्ग म by association, just like e is used, similarly to and do also should be interpreted as syllables. Rather yeah. than That can, That can be one way off. So up, up. You're good, Mahodir. Yeah, up there. Leena Mahodir. Leena Doshi. Mahodir, we are Sumitra Asli. We are Sumitra Asli, we are Sumitra Asli. Sumitra Mahodir, huh. तस्य नाम नव ना अस्तु महोदय शः प्रत्ययः इति वन् पाय्ण्ट् त्री पाय्ण्ट् सिक्स् सूत्रम् अस्ति प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत् संज्ञा भवति शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रं उपदेशे प्रत्ययस्य आदिः शकरः इति अर्थः अस्ति यत् उपदेशे आदिः शकरः अस्ति चेत् प्रत्ययस्य इत् सम्यकः भवति इति तर्हि महोदय प्रश्नः अस्ति यत् उप सूत्रे सम्पूर्णसूत्रे उपदेशे आदिः पदपदानि सन्ति ते, ते कुतः आगच्छन्ति mm. आँ, आँ, आँ, आँ, चे, एक एकनिमिषं महोदय सुमित्रा महोदय वदति प्रत्ययस्य आदिः यत्र आदि अस्ति तत्र न भवति न न अहं वदामि सम्पूर्णसूत्र लिखितमस्ति खलु सूत्रं के तु केवलं शः प्रत्ययस्य अस्ति परन्तु सम्पूर्णसूत्र अन्ते लिखितमस्ति उपदेशे प्रत्ययस्य आदिः शः इति तरी उपदेशे, पदम, uh, उपदेशे, पदम, पदम, इत पदम, उपदेशे इत, इति पदं प्रत्यस्य, इति उपदेशे इति पदम् आदिः इति पदम् इत् इति पदम् ए त्रीणि पदानि सन्ति ते सूत्रे तु न सन्ति ते कुतः आगच्छन्ति अनुवृत्तिसहितसूत्रं पतति सूचयति आम् उपदेशे प्रत्ययस्य आदिः इति अनुवृत्तिसहितसूत्रं सूचयति कुत्र इति उपदेशे करणीयम् इति अहं वदामि अनुवृत्तिः अस्ति खलु आम् अनुवृत्तिः केन कस्मात् सूत्रा उपदेशे, आ, उपदेशे, आधी, आधी, आधी, आधी, उपदेशे उपदेशे पदस्य आदिः पदस्य अनुवृत्तिः कुतः परिभाषा पूर्वं दृष्टवन्तः खलु त्री पाय्ण्ट् फैव् मध्ये यत् अस्ति तत् अस्तु अवगच्छति इदानीं उपदेशे अजनुनासिकः इत् इति वा प्रथमं दृष्टवन्तः त्रि पायिण्ट् टु मध्ये तर्हि फलितार्थः किं यत् उपदेशे यदि प्रत्ययः यदस्ति प्रत्ययस्य उपदेशावस्थायां mm -hmm. यदि आदौ तस्य प्रत्ययः शकारः अस्ति शकार तस्य इत्संज्ञा भवति भवती अस्तु तत्र अमौषस्य उदाहरणमेव उदाहरणं सत्यम् अस्ति ्यञ्ज् प्रत्ययः श्यञ्ज् प्रत्ययः तु अहं प्रायः अस्माभिः मया श्रुतमस्ति परन्तु न जानामि परन्तु अस्ति चेत् आं तस्य लोपः भवति लोपः भवति अस्तु सुमित्रा महोदय भव भवती एव पठतु अग्रे छुटु महोदय पठामि वान् प्रत्ययस्य आदौ चवर्गै चवर्गीयः छ अथवा तवर्गीयः ट ड वर्णः भवति चेत् तस्य वर्णस्य सम्यक् भवति चुश्च तुश्च तयोः इतरेतरद्वन्द्वः चुटु द्विवचने गुरुशब्दः इव चुटु प्रथमान्तम् एकपदम् इदं सूत्रं वचनविपरिणां क्रियते अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे प्रत्ययस्य आदि चुटु इथौ उपदेशे प्रत्ययस्य आदि शवर्गे वा सवर्गे वा अस्ति अस्ति चेत् भवतः तत्र इति वदति कुत्र इति अनुवृत्तिसूत्रम् अनुवृत्तिसहितसूत्रं सूचयति उपदेशे इति इत्युक्ते पूर्वं दृष्टवन्तः खलु आदिर् इति अनन्तरम् आदि इति उपदेशे अजनुनासिक इत् इति आदि किम् इति अपि नीचु डव प्रथमं दृष्ट उपदेशे अजनुनासिक अस्तु अश्य अत टू आगछति तर संपूर्ण टर्गूर्णट अवर्गटु तरी चुट मध्ये टू आगती तवर्ग पर आदिर्टु टव ये टू आगे तस्थ संपूर्ण टवर्ग ना तरीका प्रश्न अस्त चुटुस्थु तरी त चकार से ह्रस्व उसे परकार से तो दीर्घकार अस्ट कथन शब्द एकमिरा महोदय प्रयत्न कहो महोदय त्र दु दिवचने ुटु चुटवः इति तर्हि अत्र द्विवचनं कथमागच्छति यतोहि तत्र द्वि द्वि सन्ति खलु चु टु इति तर्हि यथा वयं जानीमः यदि समासः किञ्चित् जानन्ति चेत् रामश्च लक्ष्मणश्च किं भवति रामलक्ष्मणौ रामलक्ष्मणौ तथैव चुः च टु च भवति चुटु अस्तु इतरेतरद्वन्द्व अस्तु, अस्तु। धन्यवादः महोदय अग्रे कोऽपि कापि अस्ति वा कोऽपि अस्ति वा येन अधुना पर्यन्तम् एकवारमपि न पठितं कोऽपि अस्ति वा अत्र बहु अनानिमस् जनाः सन्ति अतः पृच्छामि <coughs> नास्ति चेत् पुनः कुर्मः लीना दोषी महोदय अस्ति वा आम् अस्मि लक्वतद्धिते लशक्वतद्धिते प्रथमः अध्यायः तृतीयः पादः अष्टमः सूत्रः प्रत्ययस्य आदौ लकारः षकारः कवर्गीयः क ख म च वर्णः अस्ति चेत् तस्य इत् संज्ञा भवति किन्तु तद्धितप्रत्यये न लश्च षश्च कूश्च तेषां समाहारद्वन्द्वः लशकु न तद्धि न तद्धितम् अतद्धितम् इति नये तत्पुरुष तस्मिन् अतद्धिते लशकु प्रथमान्तम् अतद्धिते सप्तम्यन्तं द्विपदम् इदं सूत्रम् अनुवृत्तिसहितम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते अत्र यदि प्रत्ययः अस्ति तस्य आदि लकारः शकारः वा कर्गीयः क कर खङ ङ इति कोऽपि वर्णः आगच्छति चेत् तस्य लोपः भवति किन्तु यदि तद्धितप्रत्ययः अस्ति लोपः न भवति इति तस्य आशयः तथा च लोपस्य इत् इत् इत् संज्ञकः भवति क्षम्यताम् इत् संज्ञकः भवति तत्पश्चात् अस्मिन् अनुवृत्तिसहितम् उपदेशे इति पदम् उपदेशे जनुनासिके इति सूत्रतः शुत्र आगतः प्रत्ययस्य इति शः प्रत्ययस्य इत्यतः इति अपि अजन, अजनुनासिके इत् सूत्रतः इत, अतद्धितः लशकु अस्मिन् सूत्रे अस्ति तर्हि किमस्ति यत् प्रत्ययस्य आदौ यदि लकारः षकारः अथवा कवर्गवर्णीय वर्णः अस्ति वा अस्ति चेत् तस्य इत्संज्ञा भवति परन्तु तद्धित् प्रत्ययः अस्ति एकः वर्णप्रकारः प्रत्ययप्रकारः तद्धित् प्रकार तद्धित् प्रत्ययः तद्धितप्रत्ययः तंधित अस्ति चेत् तस्य इत्संज्ञा न भवति तर्हि अत्रापि पश्यतु यत् कु अस्ति तस्य अर्थः केवलं कु इति न परन्तु सम्पूर्ण कवर्ग अस्तु mm. इति तु इत्संज्ञाप्रत्ययाः सन्ति सप्त सूत्राणि सन्ति उपदेशे अनुनासिक एतत् हलन्त्यं न विभक्तौ तु स्माः आदिवः शः प्रत्ययस्य ये सूत्र ये यानि सूत्राणि सूत्राणि सन्ति ते वदन्ति यत् कुत्र कुत्र इत्संज्ञा प्रकरणं भवति इत्संज्ञा कुत्र अस्ति पश्यतु यत् पाणिनिनाः सर्वाणि इत्संज्ञासूत्रसूत्राणि एकस्मिन् एव स्थले स्थापितानि सन्ति इति इदमपि अष्टाध्यायस्य एकमहत्त्वपूर्ण तस्य फीचर् अस्ति यत् ये ये सूत्राणि एकमेव कार्यं कुर्वन्ति ते सर्वे सूत्राणि एकस्मिन् एव स्थले अष्टाध्यायी पाणिनिना स्थापितानि सन्ति बहु सुन्दरं तस्य अष्टाध्याय अस्तु तं, तं, अस्ति लशकु अर्तये उदाहरणं वदतु शक्यं वा कस्य उदाहरणं तस्मिन् सूत्रस्य एक एकप्रत्ययः अस्ति विकरणप्रत्ययः अस्ति षप् प्रत्ययः अस्ति खलु शप् तत्र षप् प्रत्ययः अस्ति तर्हि तर्हि तत्र शकारस्य इति संख्या भवति लषिते इति सूत्रेण षकारस्य लोपः भवति केवलम् अप् इति अस्ति महोदय अभ्यासे अस्ति आम् अग्रे वह पाठा परंतु प्रत्यय एक बहु बहुत बहु, बहु, बहु, जो प्राया जानते शतय शय उदाह अस्त शशकु पदशकु भवि किल प्रथमा विभक्ति आधिः अस्ति लशकु योगिः आगच्छति तत्र तत्र प्रायः समासः अस्ति एव चिन्तयतु अत्र केवलं प्रातिपदिकम् एव अस्मा तिष्ठ अस्ति तत्र लशकु नो चेत् लशकवः लशकवः इति वर्णति खलु एकस्मिन् एव पदे स्थापितमस्ति समासरूपेण अतः अत्र अत्र समाहा समाहारद्वन्द्वम् अस्ति समाहारद्वन्द्वम् इति पदं यदि अस्ति चेत् मधु इति शब्दस्य इव तस्य रचना भवति अतः एतरेतरद्वन्द्वसमासः नास्ति अत्र समाहारद्वन्द्वः अस्ति अतः दशकु इति एव रूपं भवति तस्य पश्चात् पद्ध सन्धि सन्धि भवति पश्चात् सन्धि आम् अस्तु धन्यवादः अस्तु अग्रे कोऽस्ति लोपविधिः एकवारं यदा एक कस्यचित् वर्णस्य वर्णसमूहस्य च इत् संज्ञा भवति तस्य तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति तस्य लोपः इति सूत्रं प्रथमपादं तृतीय प्रथम अध्यायं तृतीयपादम् नवम नवम नवमसूत्रम् इत् सम्य सम्यकस्य वर्णस्य लोपो भवति तस्य तस्य षष्ट्यन्तं लोपः लोपः प्रथमान्तं तस्य इति षष्ठ्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् उपदेशे अजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः षष्ट्यर्थे अनुवृत्तिः सहितसूत्रम् तस्य इतः लोपः यस्मिन् कस्मिन् सूत्रे अन्तिमवर्णः इत् हल् स्यात् तस्य लोपः इति तत् तस, तस इत् संज्ञा भवति तत् तत् तस तस इत्संज्ञा इत् संज्ञस्य वर्णस्य अत्र तस्य लोपः इति सूत्रेण लोपः भवति केवलम् अन्त्यहल् न कुत्रापि इत्संज्ञा अस्ति कुत्रापि इत्संज्ञा अस्ति अनुनासिक अनुनासिक इत् इत् इत् इत् इत्यस्य अनुवृत्तिः सृष्ट्यर्थे उपदेशे अनुनासिक इत् इति अनुवृत्तिः किं सूत्रं पूर्वसूत्रेण अनुवृत्तिः सहितसूत्रमिदं तस्य इतः लोपः लोपः भवति तर्हि किमस्ति यत् <coughs> अस्माभिः दृष्टं खलु इत्संज्ञा कुत्र कुत्र भवति तर्हि इदं सूत्रं वदति यदा इत्संज्ञा भवति तस्य इत लोप तस्य इत् लोपः भवति इति तु प्रकरणस्य अष्टसूत्राणि सन्ति अतु mm -hmm. अस्तु अग्रे भवती एव पठतु अनुवृत्तिः एतेषाम् अनुवृत्तिक्रमः सुलभः <coughs> <coughs> <coughs> उपदेशे अनुनासिक इत् इत्यस्मिन् न कापि अनुवृत्तिः सा सर्वं सूत्रे एव वर्तते तत्र अनुवृत्तिः नास्ति हलन्त्यम् इत्यस्मिन् सूत्रे उपदेशे अज्जनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः हलन्त्यम् इति सूत्रे उपदेशे इत् इति अनुवृत्तिः भवति अतः उपदेशे अन्त्यम् हल् इति वाक्यम् न विभक्तौ तुस्मा इत्यस्मिन् उपदेशे अज् अनुनासिक इत् अस्य इत्यस्मा इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृ अनुवृत्तिः न विभक्तौ तुस्मा इति सूत्रे उपदेशे अनुजत् अनुनासिक इत् उपदेशे इत् इत्यनयोः अनुवृत्तिः भवति द्वि पदम् अनुवृत्तिः हलन्त्यम् इत्यस्मात् हल् अन्त्यम् इत्यनयोः अनुवृत्तिः अतः उपदेशे विभक्तौ अन्त्याः हल् तुस्माः न इतः इति वाक्यम् अतः अस्तु धन्यवादः तर्हि जानाति महोदय अग्रे आदिर्मीटुव प्रथम अध्याय तृतीय पदे पंचमसूत्र उपदेशे झ अनासीक इतस् सूत्रा उपदेशे इतन अवृत्ति भूवाद धातव प्रथम अध्याय तृतीय पदे प्रथमसूत्र धावृत्ति वचनपरिमा परिणामम् विभक्तिपरिणामम् च कृत्वा अतः उपदेशे धातोः आदयः मीटुडवः इतः इति वाक्यम् ष् प्रत्ययस्य प्रथम अध्यायस्य तृतीयपादे षष्ठ सूत्रम् इत्यस्मिन् आदिर्मिटुडवः इत्यस्मात् आदिः उपदेशे झनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः शः इत् इति वाक्यम् च्युटू प्रथम अध्यायस्य तृतीयपादे सप्तम सप्तमसूत्रम् इत्यस्मिन् ष् प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्नुट न्यूटुटवः इत्यस्मात् आदिः उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः च्युटू इतौ इति वाक्यम् लश्य लशत्वतद्धिते प्रथम अध्यायस्य तृतीयपादे अष्टमसूत्रम् इत्यस्मिन् पुनः पुनः शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्नीटुडवस्मा आदि उपजे उपदेशे जनुनाक इतस् उपदेशे इत उपदेशे प्रत्यय आदि लु अत इतवाक्यं तर लोप है प्रथमध्या नवम सूत्र उपदेशे जनुनाक इतस् इत् इत्यस्य अनुवृत्तिः अतः तस्य इतः लोपः इति वाक्यम् ध्येयम् यत् सिद्धान्तकौमुद्याः इत्संज्ञा सम्बन्धसूत्राणाम् सूत्रसङ्ख्याः क्रमेण न वर्धन्ते पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते सर्व खलु तर्हि तर्हि अत्र ईत्संज्ञप्रकरणं समाप्तं भवति अतः कोऽपि प्रश्नः अस्ति वा कस्यापि वदतु हा अस्तु एकः एव संशयः अत्र पट् इति धातुः भवतिवा, वा पठ इति भवतिवा, वा पट् इति भवति चेत् अलन्त्यम् इति कारणेन इत् लोपः भवति वा तादृशम् अस्माभिः अवगन्तव्यं वा यत् तद् पूर्वं इति आसीत् अनुनासीत् वा एतत् एतत् तस्य इत् सम्य अभवत् इति तादृशम् अवगन्तव्यं वा कथं हलन्त्यम् इति न अत्र अत्र उपदेशे यदा भव् भवत्या एव अवद एव उक्तमस्ति उपदेशे पठ अस्ति खलु हा उपदेशे अन्ते तु हल् नास्ति अच् अहं तदेव तादृशम् अवगन्तव्यं वा इति पट्ट् इति एव वयं प्रायः सर्वत्र पश्यामः पट्टु धातोः इति एव पश्यामः अतः इदानीं तादृश एक भवानेव उक्तवान् खलु तद् अच् तु अनुस् अनुनासिक अच् कुत्रापि तत्र न स्पष्टं भवति तद न लिखितं भवति सो mm. अस्माभिः इदानीम् एतादृशम् अवगन्तव्य तत्पूर्वं yeah. पट इति भवितुं स्यात् पट पट इति स्यात् तदनन्तरम् Uh, तत्र उपदेशे अच् अनुनासिक इति कारणात् पट् इति अभवत् इति अवगन्तव्यं वा अहं न जानामि इति दातु पट्ट् इति एव सः उपदेशे उपदेशे अहं उपदेशे यदि पठ इति अस्ति मूलधातुः प्रायः पठ एव अस्ति परन्तु अहं निश्चयेन न कथयितुं शक्नोमि परन्तु प्रायः पठ एव अस्ति पठ एव अस्ति चेत् तत्र अन्तिमः अकारः तत्र अनुमासिक अकारः अस्ति येन कारणेन तस्य इत्संज्ञा भवित्वा भूत्वा लोपः भवति परन्तु एकवारं लोपः यदा भवति तदनन्तरं यत्र खकारः तिष्ठति तत् खकारः पुनः फलन्त्यम् इति सूत्रेण तस्य लोपः न भवति यतोहि तत् अन्त्यं नास्ति खलु उपदेशे उपदेशे यदि अन्त्य अन्त्ये ह लगच्छति चेत् तर्हि तदेव तस्य लोपः भवति तदेव अस्तु अन्ये एकः प्रश्नः अस्ति अत्र श ल इति भवति खलु तत्र इल एव लोपः भवति खलु नामाम् अकारस्य न न तत् केवलं उच्चारण उच्चारण उच्चारणस्य सरलतायै तत्र लिख लिखितमस्ति अकारः उत्तमप्रश्नः अस्ति तत्र वर्णसमूहः नास्ति केवलं लुश् इति धन्यवादः अस्तु अग्रे अभ्यासः अस्ति पञ्चनिमिषा निमेषाः एव सन्ति परन्तु किञ्चित् अभ्यासः कुर्मः अत्र किमको अस्ति अग्रे अमितराव् महोदय अस्ति अमितराव् आम् अस्माक आरम्भः कुर्मः अभ्यासः धातवः डुपच् इत्यत्र डु आदिर्दिर्नि हलो हरि ओम् गच्छति वा श्रूयते वा वयं शृणुमः अस्माभिः श्रोतुं शक्यम् अस्तु अस्तु किं भवति श्रूयते सर्वे श्रूयन् सर्वे श्रुण्वन्ति श्रुण्वन्ति खलु मम श्रूयते खलु श्रूयते अमित महोदयस्य ध्वनिः लुप्ता भवति नास्ति तस्य ईत्सङ्ख्या भवति एतत् अग्रे श्री टु डबः सूत्रं अग्रे श्रीरामहोदय अस्ति वा श्रीरामहोदयः अपि नास्ति इत्संज्ञा हलन्त्यम् इत्यनेन शकारस्य इत्संज्ञा सकारोत्तरवर्ति अहङ्कारः उपदेशे जनुनासिक इत् इत्यनेन इत्संज्ञा तस्य लोपः इत्यनेन सर्वेषां लोपः पचि तर्हि लाप्टाप्बूटेड् अतः किमर्थं पाणिनि एतानि वर्णानि ददाति संज्ञा वर्णानि ततः परं लोप लोपलोपलोप इति लो� भवति आम् उत्तमप्रश्नः अस्ति प्रश्नः अस्ति यत् एवम् अस्ति चेत् कथं किमर्थं पाणिनिनः अष्टाध्याय्यां साक्षात् एव न लिखितं पच् किमर्थं डुपचष् डुपचष् तस्य लोपः कन्फ्यूस् नास्ति एक्चुलि तस्य कारणम् अस्ति यत् अग्रे गत्वा वयं पश्यामः यत् येन अनुबन्ध स्वराणां सहायतया पाणिनिः कार्यं कथं करणीयम् इति वदति यत् पाणिनिः वदति कुत्रापि यत् यदि डू इति आदि अस्ति चेत् एतादृशं कार्यं करोतु किमर्थम अन्यम् अस्ति चेत् एतादृशं कार्यं करोतु इति अस्ति तर्हि अग्रे वयं तस्य पठामः यत् कित् कित् एकमस्ति कित् कित् अस्ति कित् तस्य अर्थः अस्ति ककारः ककारस्य इत् इति कित् तर्हि hmm. ककारस्य यदि इत् अस्ति तर्हि एकप्रकारस्य कार्यं करोतु कित् नास्ति चेत् अन्यकार्यं करोतु इति तर्हि hmm. किं कुर्मः किं पाणिनिः किं करोति यत् अनुबन्धस्वराणां अनु अनुबन्धस्वराणां सहायते सहायतया सः सह, पदानां ग्रूप् करोति ूह करोति तर्हि एकसमूहस्य एककार्यम् अन्यसमूहस्य अन्यकार्यम् इति सो व् हि हेज़् वेरि इण्टेलिजेण्ट् सीन् देट् सम कैण्ड् आफ़् सम् पर्टिक्युलर् ग्रुप् आफ़् धातु और् प्रत्यय दे बिहेव् इन् वन् पर्टिक्युलर् वे सम अदर् दे बिहे इन् सम अदर् पर्टिक्युलर् वे सो टु क्लव् देम् अण्डर् अ सेम् ग्रुप् इन्ट्रोड्यूस्ड् दीस् कैण्ड आफ् इत् संज्ञा सो देट् वन्स् दि हे बिन् इन्ट्रोड्यूस्ड् हि केन् देन् suggest one uh, method based on these anubandha so it is a it, I, it that is my belief it is in it is a very intelligent way to club uh, apparently seemingly different dhatu into similar looking dhatu in the upadesha so that similar work can be done on it voyam agre patham yadi yada vayam agre gachham tari vayam it it संज्ञा इत्संग्या, इत् संज्ञायाः आधारेण कार्याणि कथं भवति इति वयम् अग्रे पठामः अस्तु तर्हि अद्य इति दातो अस्ति डुग्रुञ्च् इति दातो नृञ्च् ृञ्च् इति दातु अस्ति एवं किल सूत्रं वा नुड्वः हलन्त्यं तस्य लोपः त्रीणि सूत्राणि त्रीणि सूत्राणि सन्ति ओ अस्तु द्वे द्वे, द्वे, द्वे द्वे सूत्रे सन्ति इत्संख्या प्रकरणस्य एकसूत्र तस्य लोपः तस्य लोपः यो योगेन सर्वदा करणीयं सर्वदा आगच्छति सर्वदा आगच्छति सूत्रमेव वदति यत् संख्या खलु ओहो ओके ओके ओके ओ धन्यवादः महोदय धन्यवादः लेप्टाप् न चिन्ता महोदय अक्षे अस्तु अग्रिमरविवासरे अभ्यासः अभ्यासं वयं करिष्यामः तर्हि एकवारं पुनः पठतु गृहकार्ये एकसंज्ञाप्रकरणं कोऽपि प्रश्नः अस्ति चेत् अग्रिमवर्गे पृच्छतु तर्हि अधुना तु विरमामः शुभरात्रिः धन्यवादः महोदय धन्यवादः महोदय धन्यवादः धन्यवादः नमस्सर्वे नमस्ते